नारायणीयं दशकं 94 मीटर मीटर् शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परन्ते शुद्धं देहेन्द्रिया दिव्यपकदमखिलव्याप्तमावेदयन्ते नानात्वस्तौल्यकार्श्यादिदु गुणच वपुःसङ्गतो ध्यासितन्ते श्वीव महदनुदा दीप्तता शान्ततादि दी। आचार्याख्या धरस्तारणि समनुमच्छिष्यूपोरारण्यान स्फुटरपरीबोधा दह्यमाने वासना तत्तनु भुवन भ्रा कापूरे दाह्या विद्या शिखिनी च विर ईल्ववस्ता एवं त्वत्प्राप्तितोऽन्यो न हि खलु निखिलक्लेश हानेरु आयो नैकान्ताप्यन्तिकास्ते कृषिवदगदषाड्गुण्य षट्कर्मयोगाः अपि निगमपद्धा तत्फलान्यप्यवाप्ता मत्स्तास्मरंध प्रसजति पदने्यनतालोकादोकुभरह यधद्वया सत्यलोके न सुख वसदिप्दम पदनाभ एवं भावेत्वधर्मार्जितबहु तमः साङ्काकथा नारकाणां तन्मे त्वञ्चिन्दिबन्धं वरद कृपणबन्धो कृपापूरसिन्धो याधार्भ्या त्वन्मयस्यैव हिममनविभो वस्तुदो बन्धमोक्षौ माया विद्या तनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ बध्ये जीवद्विमुक्तिं गतवदि जिदा तावदी तावदेको भुङ्क्रे दे देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यधात्मा। जीवन्मुक्तत्वमेवं विधमिति वच सा किं फलं दूरदूरे तन्नामाशुद्धबुद्धे न च लघुमनःस शोधनं भक्तितोऽन्यत् तन्मे विष्णो कृषिष्टास्त्वयि कृतसकलप्रार्पणं भक्तिभारं यनस्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्वत् प्रभो धस्त्वदात्मा प्रयति दमनः स स्वान्न जानन्ति केचित् कष्टम् वन्ध्यश्रमास्ते चिरतरमिहगाम् बिभ्रते निष्प्रसूतिम् यस्याम् विश्वाभि रामा सकलमलहरा दिव्यलीलावताराः सच्चित् सान्द्रम् च रूपन्तवननिगदितं तान्न वाचं भ्रियासम् यो या वान्यादृशो नैवाव गच्छामि भोमन्ये वाञ्चानन्यभावस्त्वतनु भजन मे वाद्रिये चैद्यवैरिन् त्वल्लिङ्गानान् त्वदंगृप्रियजन मनस्सान्दर्शनस्पर्शनादिर्भूयान्मे त्वत्प्रपूजान्नदि गुणकर्मानु कीर्त्यादरोऽपि यद्यत् लभ्येत तत्तत्तव देवदासोऽस्मि तेहन् त्वद्देहोन्मार्जनाद्यम् भवतु मामा मुहुः कर्म निर्मायमेव सूर्याग्निब्राह्मणात्मा दिशु लसितच दुर्बाहुमाराधये त्वान् त्वत्प्रेमार्द्रत्वरूपो मम सतदमभिष्यन्ददां भक्तियोगः ऐक्यन्दे दानहोमव्रतनियमतपःसाङ्ख्य योगैर्दुरापन्त्वत्सङ्गेनैव गोप्य किल सुकृदितमा प्रापुरानन्दसान्द्रं भक्तेष्वन्येषु भूयस्वपि बहुमनुषे भक्ति मे वत्त्वमासान् तन्मे त्वद्भक्ति सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द